मुद्गलपुराणं खण्डं 6, विकटचरितम् अध्यायं 38, एय्ट् बालखेलावर्णनं श्रीगणेशाय नमः आदिशक्रिरुवाच ततः सिन्धुचरास्तत्रगुप्तरूपेण संस्थिताः ज्ञात्वा सङ्कथयामासुर्वृत्तान्तं सिन्धवे परं एतस्मिन्नन्तरे वाणी बभूवे तत्र शक्तयः अशरीराचतां सिन्धुं शुश्रावभयदायिनीम् अयम् वै दैत्यनादाशुत्वां हनिष्यदिवे गदः स्वस्वधर्मयुधं सर्वं श्रुत्वा सम्मूर्छिदो दैत्यसावधानो बभूवः मुहूर्तेन महायत्नैस्तदशुशोच मन्दधीः तं हन्तुं प्रेषयामास दैत्येन्द्रान् दैत्यनायकः गुप्तरूपेण ते सर्वे त्रिसन्ध्याक्षेत्रमाययुः नानामायां समाश्रित्य तं हन्तुं तान् समागतान् पशु पक्ष्यादिरूपस्थान् जखान शिवनन्दनः तदस्सा पार्वती देवी शुशोच बहुधा अहा अहास्या हद पुत्रेण नि तथा दैत्याजान्यं दैत्या कैष्य मे सुदनिष्य गुणाधीश नजना विचारद साक्षा ब्रह्मपदी पूर्णपुत्रो मे प्रबुव भाग्यहीन प्रभावेण गमिष्यदि मिषेण किं तदोमायां गुणेशानश्चकारमोहिनीं परां तया मोहयुता देवी पुत्रं मेने गणेश्वरं ये योगी मरीचिर्गणपं भजन् प्रार्थया देवेशं दर्शनं देहि विघ्नप ततः सोऽपि महायोगी शुश्रावस्वचोमलं शिवपुत्रत्वमापन्नो गणेशस्तं विलोकया श्रुत्वा समागतं हर्षात् पार्वतीतं ददर्शः प्रणाम्या पूज्य सम्भोज्य प्रार्थयामा शतं मुनिं त्वं साक्षाद् ब्रह्मभूतश्च न गच्छसि ममाश्रमं त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्षरक्षया दैत्यादीनां समूहश्च सर्वदा कालधिकृतां समायादिगणेशानं हन्तुं भवन्ति ते मृदाः अस्माकं कुलदेवस्तु विग्नेशो नात्र संशयः स मुने पुत्रं मम नो चेन्मृदो भवेत् शङ्करेण गणेशानसेवितोऽभून् महामुने तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः पार्वतीवचनं श्रुत्वा विस्मितो साक्षा साक्षाच्चक्रिरियं भ्रान्ता सुदं जानादि विघ्नवम् गणेशकवचं तस्मै ददौ शम्भुसुधायसः तं प्रणम्य संस्तुत्य ययौ स्वस्याश्रमं मुनिः तथापि दैत्यराजन्स तं नित्यमागदान् नित्यमागतान् नानावेष्टधरान्वीक्ष्य जघ्ने वै बालखेलतः ये कदा पार्वती प्रादः समुद्धाय शिवे कृत्वा वामहस्ते दधारताम् आवास्य शङ्करं तस्याम् पूजने संव्रता भवद अंदरे तत्र गुणेशो भवदुद्धितः स्तन्यं देहि जगादासौ पार्वतीं सा तमब्रवीद पूजयित्वा महेशानं दास्यामि स्तनपानकं ततस्तां जगादैव किमर्थं पूजने रता मां त्यक्त्वा तेत्थिकं देवि ददते शङ्करकृदः स्तन्यं देहि च मे मातस्तत्रानन्दशिवादयः सन्तुष्टा प्रभविष्यन्दिब्रह्माणि शैलनन्दिनि तथापि हास्यसंयुक्ता न ददौ स्तनपानकं तदो रोषसमाविष्टो मयूरेशो बभूवः तलाखादेन देव्या स हस्तस्थं शिवलिङ्गकं पादयामास भूम्यां तद्भग्नं बभूवशक्तयः ततोदिदुःखसंयुक्ता पार्वती विकटं पुनः जखानतलखादेन महाक्रोधवती परं ततो गणेश्वरक्रुद्धस्समागत्य स्वमादरं ददं शां गुलिकाम् तस्या रक्तं शुस्रावचोल्बणम् ताम हाकाररवां तां सत्यक्वापपालभीदिदः भीदीनां भयदापि बालक्रीडां प्रदर्शयन् दृष्ट्वा रुरोदादिदुःखसंयुक्ता शङ्करप्रिया प्राणप्रतिष्ठया युक्तं भग्नं लिङ्गं शिवस्य च शिवहत्या समं पापम् मया प्राप्तं न संशयः अन्यत्पदिवधे जातं तदेवाप्यधुना कृतम् अयं पुत्रो गुणेशो मे नरकस्य प्रदोमदः वन्ध्याकं चेत्तदा दैवं धन्यं मेनात्र संशयः अधुना दुःखिताहं वै स्मृत्वा देहत्यागं करिष्यामि विघ्नराजनमोऽस्तु दे गणेशस्मरणेनैव बुद्धिभेदो बभूवः ददर्शगणराजं तं समीपे पुत्ररूपिणं यष्टिहस्ताय यौ देवी पुत्रं परात्परं पपालभयः संयुक्तो गणेशस्तां विलोक्य च सा जग्रासस्वपुत्रं तं धावयित्वा शिवप्रिया मायां चकार विघ्नेशिवरूपो बभूवः मोहिता शङ्करं देवी मायया दृश्यदुःखिता किमर्थं यष्टिहस्ताहम् महेशं हन्तुमुद्यता त्यक्त्वा तं दुःखितात्यन्तं देहत्यागे समुद्यता बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक पलन्दं भयसंयुक्तं देवी हन्तुं समुद्यता ययौ तमनुवैसोऽपि वनगो भवद यदस्मिन्नन्तरे तत्र दैत्यकर्दमः संज्ञः शैवो द्विजस्वरूपेण बालं जगादचागदः किमर्थं पुत्रपलसि रक्षामि त्वां न संशयः यत्र मादा न तत्र तस्मात् स्थिरो भव बालभावेन गुणेशेन कृतं वचः बाल्यं जिघेलगृह्यासौ हर्षयुक्तो बभूवः अको सिन्धोर्मः शत्रुर्मया सम्भक्षितो भवद सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् एतस्मिन्नन्तरे तत्र जगदम्बा तमाययौ शैवं द्विजं प्रदृश्यैव प्रणनाम जगाद च पार्वत्युवाच स्वामिन् मम गुप्तो बभूव सन्निधौ त्वदीये नात्र सन्ते हः पादं पश्यामि नो पादं पादमार्गेण त्वं विप्र गृहीतुं चागदाभवं परस्वादिकचिह्नेन वद सत्यं महामते द्विज उवाच न दृष्टशैलजे पुत्रो मया तवनसंशयः शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकं ततो हि दुःखसंयुक्ता सस्मारद्विरदाननं तदस्तस्य मुखाम्भोजान्निःसृतो गणनायकः निःसृत्यमुष्टिखादेन गुणेशेन हदोऽसुरः ममारमहादुष्टोऽष्टादशयोजनोऽ भवद तदसा हर्षिदात्यन्तं क्रोधहीना बभूवः पुत्रं गृह्यय यौ देवी स्वाश्रमम् गृहगाभवद पुत्रः पपाद भूपृष्ठे लोढयत्तत्र शक्तयः पुनः न सृंभा चकार पार्वदी विकटानन तम तादृश्य निरीक्ष्य पावती दुख संयुता किं जानपदे विश्व ददर्श भयसुला अनन्दाण्डसमयुक्तम् पपाद धरणीतले स्वगुरुं शङ्करं साधु सस्मारस्वेष्टदेवकं गणेशं तेन मोहेन हीना बभूव पार्वती विचारमकरोद्देवी गणेशोऽयं सुदो भवद त्यक्त्वा लिङ्गसेवायां निरदा मूर्खवत् पदिभावेन देवेशं शङ्करं देवधारिणं भजामि देवभावेन गणेशं तच्च विस्मृतं स्तनपानं गणेशाय न दत्तं मूढभावतः अनन्दा वैमया यत्र संस्थिता शङ्करादयः तेन तुष्टेन सर्वे ते सन्तुष्टाः सम्भवन्ति च गणेशो ब्रह्मणां नाथसोऽपि सन्तुष्टयेव वै अकोऽयं शिवरूपश्च मया दृष्टप्रसन्निधौ गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् अधः परं गणेशानं पुत्रभावेन चागदं सर्वभावेन नित्यं तं भजिष्यामि हि दावहम् अयं पधिरयं तादो मादा पुत्रः देवो ब्रह्मनसन्देहो गुणेशो मे सुशान्दिदः एवं निश्चित्य सा समुद्धाय प्रणम्य तं तुष्टावकर्षसंयुक्ता भक्ति नम्रात्मकन्धरा स्तु वन्दीं तां समालोक्य गणेशो मोहमादधे तद देवी विस्मृतिं परमां व्ययौ पुत्रभावेन विघ्नेशं लालयामास गृह्यतम् गृहकार्यरदा देवी बभूवे पूर्ववद्यथा शक्तय ऊचुः बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः पुत्रभावं समासाद्य पुत्रतुल्य समाचरद किमर्थमकिलं विश्वं नाना ब्रह्माण्डसंयुधम् शिवरूपं किमर्थं स दर्शयामास चक्रये दर्शयित्वा किमर्थं स लोभयामास तद्भवं ज्ञानं कुतूहलं चेदं वदसंशयनाशनाद आदिशक्तिरुवाच पुत्रभावमयि भक्तिग्रहणे लालसः सदा वरदानप्रभावेण तफलप्रदोभवद कार्यं कृत्वा सुरर्षीणामन्तर्धानं करिष्यति तदा ज्ञानस्य देव्यास्तु स्मरणं सम्भविष्यति गणेशपुत्रभावेनागतो मे नात्र अज्ञानेन युदाहं तं सुदं जानामि निश्चितम् पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयद ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सह तेनादिभक्तिसंयुक्ता भजिष्यदि गजाननं तदर्थं गणराजोऽपि कौदुःखं तत्र चाकरोत् नाना नानाविद्धान् दैत्यान् स्वयं हत्वा च चक्रयः सेवनं चक्रे पुत्रभाव पुत्रभावप्रभावदः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते बालकेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॐ